अत द्वितीयाष्टकसप्तमप्रश्नप्रारम्भः त्रिवृत्स्तोमो भवति ब्रह्मवर्चसं वै त्रिवृत् ब्रह्मवर्चसमेवा वरुन्धे अद्रिष्टोमः सोमो भवति ब्रह्मवर्चसं वा अदृष्टोमः ब्रह्मवर्चसमेवा वरुन्धे रथन्तरगुंसामभवति ब्रह्मवर्चसं वैरथन्तरम् ब्रह्मवर्चसमेवावरुन्धे परिस्रजी होता भवति अरुणो विर्मिरस्त्रिशुक्रः एतद्वै ब्रह्मवर्चसस्य रूपम् रूपेणैव ब्रह्मवर्चसमवरुन्धे बृहस्पतिरकामयदेवानाम् पुरोधाम् गच्छेयमिति स एतम् बृहस्पतिसवमपश्यत् तपाहरते तेनागजत तततोऽपि स देवानाम् पुरोधामगच्छते यः पुरोधा कामः स्यात् स बृहस्पतिसवेन यजेत पुरोधामेव गच्छति नस्य प्रातः सवने सन्निेषु नाराशपंसेषु एकादशदक्षिणानीयन्ते एकादशमाध्यन्दिने सवने सन्न्येषु नाराशपंसेषु देवताः देवता एवावरुन्धे अश्वश्चतुस्त्रिपुंशः प्राजापत्यो वा अश्वः प्रजापतिश्चतुस्त्रिपुंसो देवतानाम् यावतीरेव देवताः ता एवावरुन्धे कृष्णार्जिनेऽभिषिञ्चति ब्रह्मणो वा एतद्रूपम् यत्कृष्णार्जिनम् ब्रह्मवर्चसेनैवैनगम् समर्थयति तेजोवार्यम् तेज एवास्मिन् दधाति राःग्नेजो भवति अग्निमुखा ह्युद्धिः अथ यत्पौष्णः पुष्टिर्वै पूषा पृष्टिर्वैश्यस्य पुष्टिमेवावरुन्धे विकरोति निर्वरुणत्वाय वारुणः अथोज एव वा कश्चसान् श्रीवारुणः अथगद्वैश्वदेवः वैश्वदेवो हि वैश्यः अथगन्मारुतः मारुतो हि वैश्यः सप्तैतानि हविपुंषि भवन्ति सप्तगणा वै मरुतः दृष्टिः पष्टौ हि मारुत्यारभ्यते टिड्वै मरुतः इषदेवैतन्मध्यतोऽभिषिच्यते तस्माद्वा एष विषः प्रियः विशो हि मध्यतोऽभिषिच्यते वृषभचर्मेऽध्यभिषिञ्चति स हि प्रजनयिता दध्नाभिषिञ्चति ऊर्ग्वानन्नाद्यन्दधि ऊर्जैवेन मन्नाद्येन समर्थयति रा आग्ने भवति आग्ने लोभिब्राह्मणः अथयत्सौम्यः सौम्यो हि ब्राह्मणः प्रसवायैव सामित्रः एतद्वै ब्राह्मणस्य वाक्पदीयम् अथ यदग्नेशोमीयः आग्नेयो वयी ब्राह्मणः तौ यदा सङ्गच्छेते अथ वीर्य्यावत्तरो भवति अथ यत्सारस्वतः एतद्धि प्रत्यक्षम् ब्राह्मणस्य वाक्पतीयम् गर्वरुणत्वायैव वारुणः अथो य कैलकश्च साम् स हि अथ यद्या वा पृथिव्यः इन्द्रो वृत्ताय वज्रमुदयच्छत् तद्या वा पृथिवीनान्व मन्येताम् तदमेतेनैव इति अष्टावेतानि हवीपुंशि भवन्ति अष्टाक्षरागायत्री गायत्रीर्ब्रह्मवर्चसाम् राजत्रियैव ब्रह्मवर्चसमवरुन्धे हिरण्येन घृतमुत्पुनाति तेजस एव रुचे कृष्णाजिनेऽभिषिञ्चति ब्रह्मणो वा एतदृक्सामयोरूपम् यत्कृष्णाजिनम् ब्रह्मन्नेवैरमृक्सामयो रध्यभिषिञ्चति घृतेनाभिषिञ्चति तथा भीव्यादुत्तरो भवति न वि सोमेन समोऽस्ति हतो ह्येषः अभिषुतो ह्येषः न हि हतः सूयते सौमेगुंसूतवशामालभते सोमो वै रेतोधाः रेत एव तद्दधाति सौम्यर्चाभिषिञ्चते रेतोधा ह्येष रे रे यत्किञ्च राजसूयमृते सोमम् तत्सर्वम् भवति अषाढिम् युत्सुपृतना सुपप्रिम् सुरर्षामप्साम् वृजनस्य गोपाम् भरेषु जागुम् सुक्षितिगुम् सुश्रवसम् जयन्तम् त्वामनुमदेवमसोमा यो वै सोमेन सूयतेः स देवसवः यः पशुना सूयतेः स देवसवः यैष्ट्या सूयतेः समनुष्यसवः एतम् वै पृथये देवाः प्रायच्छन् ततो वै सोऽप्यारण्यानाहम् पशू नामसूयत यावतीः कियतीश्च प्रजावाचम् वदन्ति तासाधुम् सर्वा साधुम् सूयते य एतेन यजते यौ चैनमेवम् वेद यत्किञ्च राजसूयमनुत्तरदेवीकम् तत्सर्वम् भवति येमे पञ्चाशतम् ददुः अश्वानागुंसधस्तुतिः ध्युमदग्नेमहि श्रवः बृहत्कृधिमघोनाम् ब्रुवरमृतमृणाम् एष वो सवः षट्रिगुंश उक्थ्यो बृहत्सामा अवमाने कण्वरथन्तरम् भवति यो वैवाजपेयः ससम्रात्सवः चोराजसूयः सवरुणसवः प्रजापतिः स्वाराज्यम् परमेष्ठी स्वाराज्यम् गौरेव गौरिव भवति य एतेन यजते यौ चैनमेवम् वेद उभे बृहद्रथन्तरे भवतः दक्षिणाः तद्धिः स्वाराज्यम् रैभुषाभिषिञ्चते तद्धिस्वाराज्यम् अनुद्धते वेद्यै दक्षिणतः आहवनीयस्त्र बृहतस्तोत्रम् प्रत्यभिषिञ्चते इयम् वा वरथन्तरम् असौ बृहत् अनयोरेवैनमनन्तरहितमभिषिञ्चति पशुस्तोमो वा एषः तेन गोसवः क्षत्रगुंशः सर्वः रेवज्जातः सहसा वृद्धः क्षत्राणाम् क्षत्रभृत्वमोवयोधाः महान्महित्वेतस्तभानः क्षत्रे राष्ट्रे च जागृहि प्रजापते स्वापरमेष्ठिल स्वाराज्येनाभिषिन्तामीत्याह स्वाराज्यमेवैनम् गमयति शिबंहे व्याघ्र उतजा प्रजाकौ ब्राह्मणे सोऽया इन्द्रय्या देवी सुभगा जान सा या राजन्ये दुन्दुभावायताया अश्वस्य क्रन्द्ये पुरुषस्य मायौ इन्द्रय्या देवी सुभगा जजान सा न आगन्वर्चसा संविदाना या हस्तिनि द्वीपिनि या हिरण्ये त्रिशिरश्वेषु पुरुषेषु कोषो इन्द्रय्या देवी सुभगा जजान सा अक्षेषु वृषभस्य वाचेः पाते पर्जन्ये वरुणस्य सुष्मेः इन्द्रय्या देवी सुभगा जजाना सा दा गन्वर्चसा संविधाना राडसि विराडसि सम्राडसि स्वराडसि इन्द्रायत्त्वा तेजस्वते तेजस्वन्दगश्रीणामि इन्द्रायत्व ओजस्वत ओजस्वन्द्रगश्रेणामि इन्द्रायत्वा पजस्वते पजस्वन्दगश्रेणामि इन्द्रायत्वायुष्मद आयुष्मन्दगश्रेणामि तेजोजी अत्रे प्रगच्छामि तेजस्वदस्तु मे मुखम् तेजस्वच्छिरो अस्तु मे तेजस्वादविश्वतः प्रत्यङ् एजसासम्पि वृद्धिमान् ओजोऽपि तत्ते प्रयच्छामि ओजस्वदस्तु मे मुखम् ओजस्वच्छिरो अस्तु मे ओजस्वानिश्वतः प्रत्यङ्गजसासम्पि वृद्धिमान् पजोसि तत्ते प्रयच्छामि पदस्वदस्तु मे मुखम् रजस्वच्छिरो अस्तु पयस्वान् विश्वतः प्रत्यङ् पयसासम्पि वृद्धिमा आयुरसि तत् प्रगच्छामि आयुष्मदस्तु मे मुखम् आयुष्मच्छिरो अस्तु मे आयुष्मान् विश्वतः प्रत्यङ् आयुषासम्पि वृद्धिमा इमग्न वर्चसे कृधे प्रजगुम् वरुणसोमराजन् मा देवास्मादिते शर्म विश्वे देवादुरदथा सत् आजुरसि विश्वाजुरसि सर्वाजुरसि सर्वमाजुरसि सर्वाजु यतो वातो मनोजवाः यतः शरन्ति सिन्धवः तासाम् त्वा सर्वा सा गुम् रुचा अभिषिञ्चामिवर्चसा समुद्र इवासि गम्मनाः सोम इवास्यदाभ्यः अग्निरिव विश्वतः प्रत्यङ्ग सूर्य अपां यो द्रवणे रसः तमहमस्मा आमुष्यायणाय तेजसे ब्रह्मवर्चसाय गृह्णामि अपाय ऊर्मो रसः तमहमस्मा आमुष्यायणाय ओजसे व्यव्याय गृह्णामि अपां यो मध्यतोरसः तमहमस्मा आमुष्यायणाय उष्ये प्रजननाय गृह्णामि अपमायो यज्ञयोरसः तमहमस्मा आनुष्यायणाय आयुषे दीर्घायुत्वाय गृह्णामि अभिप्रेः वीरजस्व उग्रश्चेत्रा सपत्नः आदिष्ठमित्रवर्धनः तुभ्यम् देवा अधिब्रवन् अङ्कोऽन्यङ्कामभित आदिष्ठवृत्रहन् रथम् आदिष्ठन्तम् परिविश्वे अभूषन् नाम विश्वरूपो अमृतानुतस्थौ अनुत्वेन्द्रो मदत्वनुबृहस्पतिः अनुसोमो अन्वग्निरावीत् अनुत्वा विश्वे देवा अवन्तो अनुसप्तराजानो य उताभिषिक्ता अनुत्वामित्रा वरुणा विहावतम् अनुद्या वा पृथिवी विश्वशम्भो सोऽ अहोभिरणुत्वावत् चन्द्रमा नक्षत्रैरनुत्वावत् यौश्च त्वापृथिवी च प्रचेतसा श्रुत्रो बृहद्दक्षिणात्वा विपर्तो अनस्वधा चकित पुंसोमो अग्निः आयम् पृणक्त्व रजसि उपस्थम् प्रजापतिः प्रजा ता अस्मात्सृष्टाः पराचीरायन् स एतम् प्रजापतिरोधनमपश्यत सोऽन्नम् भूतोऽतिष्ठत् ता अन्यत्रान्नाद्यमवित्त्वा प्रजापतिम् प्रजा उपावर्तन्त अन्नमेवैनम् भूतम् पश्यन्ते प्रजा उपावर्तन्ते य एतेन यजते य उचैनमेवम् वेद सर्वाण्यन्नानि भवन्ति सर्वे पुरुषाः सर्वाण्येवान्नान्यवरुन्धे सर्वान् पुरुषान् राटसि विराटसेत्याह स्वाराज्यमेवैनम् गमयति येजस्तेनावरुन्धे यत्तिसृधन्वम् ईर्यन्तेन यदष्ट्राम् पुष्ट्यन्तेन यत्कमण्डलम् आयुष्टेन यद्धिरण्यमाबध्नाति ज्योतिर्वैहिरण्यम् ज्योतिरेवास्मिन् दधाति अथो तेजो वैहिरण्यम् तेज तदस्मिन्नेकधाधात् का रोहिण्याम् कार्यः यद्ब्राह्मण एव रोहिणी तस्मादेव अथो वर्ष्मै वै न पुंसमानानाम् करोति उद्यता सूर्येण कार्यः उद्यन्तम् वा सर्वाः प्रजाः प्रतिनन्दन्ति दिदृक्षेण्यो दर्शनीयो भवति य वेदा ब्रह्मवादिनो वदन्ति अवेत्योवभृथा ना यद्दर्भपुञ्जीलैः पवयति तत्स्विदेवावैति तन्नादैति त्रिभिः पवयति त्रय इमे लोकाः एभिरेवैनम् लोकैः पवयति अथो अपाम्बा एतत्तेजो वर्चः यद्दर्भाः यद्दर्भपुञ्जीलैः पवयति अपामेवैनम् तेजसामर्थ्यसाभिषिञ्चति प्रजापतिरकामयत महोर्भूयाम् स्यामिति स एतम् पञ्चशारदीयमपश्यत् अमाहरत् ततो वै स महोर्भूयानभवत् यः कामयेत महोर्भूयान्स्यामिति स पञ्चशारदीयेन जे यजेत महोरेव भूयान् भवति मरुतो हि देवानाम् भूयिष्ठाः बहुर्भवति य एतेन यजते य उचैनमेवम् वेद पञ्चसारदीयो भवति पञ्चवा ऋतवः संवत्सरः ऋतुष्वेव संवत्सरे प्रतिष्ठति अथो पञ्चाक्षरापङ्क्तिः यज्ञः यज्ञमेवावरुन्धे सप्तदशग्रस्तो माना त्यजन्ति सप्तदशः प्रजापतिः प्रजापतेवाप्ती अगस्त्यो मरुद्भ्य उक्ष्मः प्रौक्षरे तानेन्द्रा दत्ता तेनम् ता वज्रमुद्यत्याभ्यायन्त तानगस्त्यश्चैवेन्द्रश्च ञ्छान्तानुपाह्वयता तत्कया शुभीजम् भवति शान्त्यै तस्मादेतैन्द्रामारुता उक्षाणस्समनीया भवन्ति त्रयः प्रथमे हन्ना लभ्यन्ते एवम् द्वितीरे तृतीये एवम् चतुर्थे पञ्चोत्तमे हन्ना लभ्यन्ते वरिशिष्ठमिवह्येतरः <laughs> वरिष्ठः समानानाम् भवति य एतेन यजते यौ चैनमेवम् वेदा स्वाराज्यम् वा एष यज्ञः एतेन वा ते कयावाकान्ध्रमः स्वाराज्यमगच्छत् स्वाराज्यम् गच्छति य एतेन यजते यौ चैनमेवम् मारुतो वा एष स्तोमः एतेन मरुतो देवानाम् भूमिष्ठा अभवन् भूयिष्ठः समानानाम् भवति य एतेन यजते यौ पञ्चशारदी यो वा एष यज्ञः आपञ्चमात्पुरुषादन्नमत्य एतेन यजते यौ चैनमेवम् वेद सप्तदशग्रस्तोमानातिजन्ति सप्तदशः प्रजापतिः प्रजापतेरेव नेति अस्याजरासो दमा मरित्रा आह अर्चद्धूमासो अग्नयः पावकाः शुचिचयश्वात्रासो भुरण्वः वणर्षदोपायभोनसोमाः यजानित्रावरुणा यजा देवागुम् ऋतम् बृहत् अग्नेयक्षिस्वन्दमम् अश्विनापिबतगुम् सुतं येद्यग्ने शुचिव्रता ऋतुनायज्ञवाहसा द्वे विरूपे अन्यान्यावत्समुपधापयेते हरिरन्यस्याम् भवति स्वधावान् शुक्रो अन्यस्याम् दृशे सुवर्चाः पूर्वापरञ्चरतो मायीतौ शिशुः क्रीडन्तौ परिजातो अद्धरम् विश्वान्यो भवनाभिचष्टे ऋतोऽरन्यो विदध्जायते पुनः त्रीणि शता त्रिसहस्राण्यग्निम् त्रिपुंशच्च देवानवचासपर्यन् औक्षण्ढुवैरास्तृणन् बरिहिरस्मै आदिद्धोतारण्यशादयन्त अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा हव्यवाज्जुह्वा स्यः अग्निर्देवानाम् जठरम् ओतदक्षः कविक्रतुः देवो देवेभिरागमत् अग्निश्रियो मरुतो विश्वकृष्टयः आत्त्वेषमुग्रमवलीमहे वयम् ते स्वालिनो रुद्रिया वर्षनिर्णिजः हे महे शक्रतवः सुदानवः यदुत्तमे मरुतो मध्यमेव यद्वावमे सुभकासो गविष्ठ ततो नो रुद्रा उत वान्वस्य अग्ने वित्ताद्धविषो यद्यजामः लीडे अग्निभिस्ववसन्नमोभिः इह प्रसक्तो विचयत्कृतन्नः प्रभैरिव प्रभरे वा जयद्भिः प्रदक्षिणीन्मरुता विस्तोममृद्ध्याम् श्रुति देवैरग्ने सजावभिः आसीदम् तु बर्हिषी निो वरुणो प्रातर्यावाणो अध्यरम् विश्वेषामतिर्यज्ञियानाम् विश्वेषामतिध्यर्मानुषाणाम् अग्निर्देवानामव आवृणानः सुमृडेको भवतु विश्ववेदाः त्वे अग्ने सुमतिम् भिक्षमाणाः दिविश्वबोधीरे यज्ञिया सह नक्ता च चक्रुरुषसा विरूपे कृष्णम् च वर्णमरुणम् च त्वामग्न आदित्या स आस्यम् त्वाम् जिह्वागुंसुषग्रिरे कवे त्वा गुम्रादिशाचो यज्ञस्य साधनम् अग्ने होतारमृत्विजम् मनुष्यद्देवधीमहि प्रचेतसम् जीरम् पिबास्यन्धो अभिसृष्टो अस्मे इन्द्रस्वाहाररिमाते मदाय कस्य वृषा सुते स च वियुत्वान्वृषभोरणत् वृत्रहासोमपीतये इन्द्रम् वयम् महाधने इन्द्रमर्भे हवामहे युजम् वृत्रेषु वज्रिणम् द्वितायो वृत्रहन्तमः विद इन्द्रः ससोर आद्रणयम् ज्योतिरिन्द्रम् अयाधिया तरणिरद्रिबर्हाः कृतेन सुष्मीनवमानो अर्कैः दुःसृधो अस्रो अद्रिर्बिभेद उतत्यदाश्वश्रियम् यदिन्द्र नाहुषीष्वा अग्रे विक्षु प्रदीडयत् भरेष्विन्द्रगुम् सुहवगुम् हवामहे अरुम्भो विचगुम् स्मृतम् दैव्यञ्जनम् अग्निम् मित्रम् वरुणकुम् सातये भगम् द्यावापृथिवी वरुतः स्वस्तये बहिः क्षेत्रम् पुरश्चन्द्रम् हि विद्वान् चौर्यमुषसम् दातुमग्निम् पुरुन्नो लोकमनुनेश विद्वान् सुवर्वज्योतिरभयग्रः स्वस्ते ऋष्वात इन्द्रस्थविलस्य बाहू उपस्क्रेयामशरणा बृहन्ता आ नो विश्वाभिरूतिभिः ब्रह्मजुषाणो हर्यश्वयाहि वरेभिः सुषिप्रा अस्मेदधृषणंसुष्ममिन्द्र इन्द्रायगाव आशिरम् दुदुक्ते वज्रिणे मधो यत्सीमुपह्वरे विदत् तास्ते वज्रन्धे नवोजोजयुर्नः गभस्तयो निरुतो विस्वाराः अहरः भूयगिजोपुवानाः वूर्णा इन्द्रक्षुमतो भोजनस्य म् ते धिजम् प्रभरे महोमहीम् अस्य स्तोत्रे धिषणा यत्त आनजे तमुत्सवे च प्रसवे च सा सहिम् इन्द्रम् देवासः शवसामदन्ननु प्रजापतिः पशो न सृजत ते स्मात्सृष्टाः पराम् चायन् तानग्निष्टो मे षोडशिनानाप्नोद तान् रात्रिदानाप्नोद तान् सन्धिनानाप्नोद सोऽग्निमब्रवीद इमान् म ईप्स्यति तानग्निस्त्रिवृतास्तो मे ननाप्नोद इमान् मेप्स्यति तानीन्द्रः पञ्चदशेन स्तो मे ननाप्नोदे स इमान्मदीप्सतेति तानि स्वे देवाः सप्तदशेन स्तोमेन नाप्नुवन् स विष्णुमब्रवीर इमान्मदीप्सेति तानि विष्णुरेकविभुंशेन स्तोमेनाप्नोत् वारवन्तीयेनावारयत इदम् विष्णुर्विचक्रम इति व्यक्रमत यस्मात्मशवः प्रप्रेमभ्रगुंशेरन् स एतेन यजेत यदाप्नोत् तदप्तोर्यामस्याप्तोर्यामत्वम् येन वै देवा जयित्वानि जित्वा यम् काममकामयन्ततमाप्नुवन् यम् कामम् कामयते तमेतेना आप्नोति याघ्रोऽयमग्नौ चरति प्रविष्टः ऋषीणाम् पुत्रो अभिशस्त्रिपा अयम् नमस्कारेण नमसा तेजुहोमि मा देवानाम् ऋषिया कर्मभागम् सा वीरिव प्रसवाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै दिवे दिव आसु वा भूतो भूतेषु चरति स भूता नामभिपतिर्बभूवा तस्य मृत्योचरति राजसूयम् स राजाराज्यमनुमन्यतामिदम् येभिः शिल्पैः पप्रथा नाम दृगुंहत् येभिर्द्यामभ्यपिगुंशत् प्रजापतिः येभिर्वाचम् विश्वरोपागुम्समव्यजत् तेनेवमग्नह्य वर्चसा समन्धि तेभिर्वाचम् पुष्कले भिरव्ययत् ते, ते नेममग्न इहवर्तसा समङ्घि आयम् भातुशवसा पञ्चकृष्टेः इन्द्र इव ज्येष्ठो भवतु प्रजावान् अस्मा अस्तु पुष्कलम् चित्रभानो आयम् पृणक्तु रजसी उपस्थम् यत्ते शिल्पम् कस्य इन्द्रियावत्पुष्कलम् चित्रभाव यस्मिन् सौर्या अर्पिताः सप्त सागम् तस्मिन् राजा नमधि विश्रगेमम् द्यौरसि पृथिव्यसि याघ्रो वै विशस्त्वा सर्वा वाञ्छन्तो मा त्वद्राष्ट्रमधिभ्रशति या या अन्तरिक्ष उत पार्थिवीर्याः साम् त्वा सर्वासा गमृचा अभिषिञ्चा विवर्धसा अभि त्वा वर्तसा अयसा सहा यथा सा तथा वा सविताकरत् इन्द्रम् विश्व अविवृधन् समुद्रव्यशसङ्गिरः प्रथीतमगुम् रुथीना वाजानागुम्सत्पतिम्पतिम्वा पुरस्तादभिषिञ्चन्तु का यत्रे न छन्दसा रुद्रास्त्वा दक्षिणतोऽभिषिञ्चन्तु अत्रैष्टुभे न छन्दसा आदित्यास्त्वा पश्चादभिषिञ्चन्तु जागरे न छन्दसा विश्वे त्वा देवाहुत्तरतोऽभिषिञ्चन्त्वानुष्टुभे न छन्दसा बृहस्पतिस्तोपरिष्टादभिषम् च तुपाङ्के लसा अरुणम् त्वावृकमुग्रम् खजम् करम् रोचमानम् मरुतामग्रे अर्चिषः सूर्यवन्तम् मघवानम् विषासहिम् इन्द्रमुक्थेषु नामभूतमगुम् हुवेम प्रवाहवासु सुतम् जीवसेनः आनो गव्योतिमुक्षकम् हृतेन आनो जने श्रवयतम् युवाना श्रुतम् मे मित्रावरुणाः प्रेमा इन्द्रस्य देवीर्यकृतः बाहू उपावहरामि अभिप्रेधिरजस्व उग्रश्चेत्तासपत्नः आदिष्ठवृद्ग्रहन्तमः तुभ्यम् देवा अधिब्रवन् अङ्कोऽन्यङ्का बितोरथय्यौ ध्वान्तम् वाताग्रमनुसञ्चरन्तौ दूरे हेतुरिन्द्रियावान्पदत्री तेनोग्नजः पप्रजः पारयन्त नमस्तर्षे गदा अव्यथाये त्वा स्वधायित्वा मानगिन्द्राभितस्त्वदृश्वारिष्टा सह एवा ब्रह्मन्त तिष्ठारथे अथ यद्विज्रहस्तः आरश्नेन्देवनिवसे आदिष्ठवृत्रहन्नातिष्ठन्तम् आदेश्था परि अनुत्वेन्द्रो मदत्वनुत्वामित्रावर्णौ योश्च त्वा पृथिवे च प्रचेतसा शुक्रो बृहद्दक्षिणात्वापि पर्दो अनुस्वृधा चितित पुंसोमो अग्निः अनुत्वावधुसवितासवेन इन्द्रम् विश्वा अविवृधान् समुद्रव्यचसङ्गिरः रथितमगो रथीनाम् वाजासत्प्रतिम्बतिम् परिमासेऽन्याघोषा आह ज्यानाम् रिञ्जन्तु गृध्रवः मेधिष्ठाः पिम्बमाना इह मा गोपतिमभिसंविशन्त तन्मेऽनुमतिरनुमन्यताम् तदश्विनाशृणुत पुंसौभगायुवम् अवतेहेड उदुत्तमम् तेनाव्याघ्रम् परिषस्वजानाः शिवम्भगुम् हिन्वन्ति महते सौभगाय समुद्रन्न सुभवन्तस्थिवागुंसम् निर्मृज्यन्ते द्वीपिनमप्सन्तः उदसा वेतु सौर्यः उदितम् मामकम्बचः उदि हि देवसूर्य सह वग्नुहम् वैवागस्तु धर्मसि हि यन्तु नदयो वर्षन्तु पर्जन्या आः स्वपिप्पला ओषधयो भवन्तो अन्नवतामो दनवतामामिक्षवताम् एषा गुम् राजा भूयासम् ये केशिनः प्रथमाः तेभिराभृतम् यदिदम् विरोचते तेभ्यो जुहोमि बहुधा घृतेन राजस्पोषेणेवम् वर्चसासकम् सजातः नर्ते ब्रह्मणस्तपसो विमोकः धिनाम्नी दीक्षावशिनीह्युग्रा प्रदेशासुमते काण्डिनो भवन्ति तेषाम् ब्रह्मे दिशेवपनस्य नान्यः आरोह प्रोष्ठम् ऋषः स्वशत्रून् अपास्राद्दीक्षावशिनी देहि दक्षिणाम् प्रतिभस्वायोः अथामुच्यस्वरुणस्य पाशात् येनावपत्सविता क्षुवेण सोमस्य राज्ञो वरुणस्य विद्वान् तथा धाता करोतु ते त्वद्भ्यमिन्द्रो बृहस्पतिः सवितावर्च्च आदधाद् तेभ्यो निधानम् बहुधाद्यैच्छन् अन्तराद्या वा पृथिवी अपस्वः गर्भस्तम्बे वीर्यकृते ओगस्ये नेमम् वर्चसासकम् सृजाथ बलम् दे बाहुवोः दधातो सोमस्त्वा रक्त्वपयसाघृतेन श्रेषु रूपमश्विनैतन्निधत्तम् ओगस्ये नेमम् वर्चसासकम् सृजाथ यत्सीमन्तम् कम् कतस्ते लिलेख यद्वाराक्षुरः ुंसुजातो वीर्येण इन्द्रम् मे स्वामिशो मरुतो नापाचायन् सोनपचाय्यमान एतम् विघनमपश्यत् तमाहरत तेनायजता तेनैवा सान्तगुंसग्रस्तम्भम् यहन् यद्यहन्न तद्विघनस्य विघनत्वम् इवात्मानम् भ्राद्रव्यगुम्हते य एतेन यजते य वेदा वेद यगुम् राजानम् विशो नापचायेः यो वा ब्राह्मणस्तमसापात्मना प्रावृतः स्यात् स एतेन यजेत लिखनेनैवैनद्विहत्या विषामाधिपत्यम् गच्छति तस्य द्वे द्वादशे स्तोत्रे भवतः द्वे चतुर्विपुंसे एतद्वये क्षत्रस्योद्भिद्यम् यदस्मै स्वा विश बलिगम् हरन्ति हरन्त्यस्मै विश बलिम् नै नमः प्रतिज्ञातम् गच्छति य एवम् वेद प्रबाहुग् अग्रे क्षत्राण्यादेपोः तेषामिन्द्रः नक्षत्रत्वम् आश्रेयसो भ्रातृव्यस्यते जयम् क्रियम् दत्ते य एतेन यजते वेदा उचैनमेवम् वेद तद्यथाहवै स चक्रिणौ कप्लकाभुपावहितौ स्याताम् एवमेतौ युग्मन्तौ स्तोमौ अयुक्षु स्तोमेषु क्रियेते आत्मनोपहत्यै अपपाप्मानम् भ्रातृव्यगुम्हते य एतेन यजते य तद्यथा हवे सूतग्रामण्यः एवम् छन्दा पुंसि तेष्वसावादित्यो बृहतीरभ्यूढः सतो बृहतीषु स्तुवते सतो बृहन् प्रजया पशुभिरसानीत्येव यदिशक्ताभिस्तुवते यदिशक्तम् वै क्षत्रम् विषा विषैवैनम् क्षत्रेण व्यतिषजति यदिशक्ताभिस्तुवते यदिशक्तो वै ग्रामणे स जातेः स जातैरेवैनम् यदि शजति यदि शक्ताभिस्तुवते यदि शक्तो वै पुरुषः पाप्मभिः यदि पाप्मनोदते